अथ पञ्चषष्टितमः सर्गः तप्यमानम् तदा रामम् सीताहरणकर्षितम् लोकानामभवे युक्तम् साम् वर्तकमिवानलम् वीक्षमाणम् धनुःसज्यम् निःश्वसन्तम् पुनः पुनः दृष्ट्वा रामम् स अब्रवीत् प्राञ्जलिर्वाक्यम् मुखेन परिशुष्यता पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः न क्रोधवशमापन्नः प्रकृतिम् हातुमर्हसि चन्द्रे लक्ष्मीः भुविक्षमा एतच्च नियतम् ननु जानामि कस्यायम् भग्नः साङ्ग्रामिको रथः केन वा कस्य वाहेतोः सयुगः स परिच्छदः खुरणेमिक्षतश्चायम् सिक्तो रुधिरबिन्दुभिः देशो निर्वृत्तसङ्ग्रामः सुघोरः पार्थिवात्मजा एकस्य तु विमर्दोऽयम् न नैकस्य तु लोकान् विनाशयितुमर्हसि युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः सदा त्वम् सर्वभूतानाम् शरण्यः परमागतिः कोनुदारप्रणाशम् ते साधुमन्येत राघवा सरितः सागरा शैला देवगन्धर्वदान वा नालम् साधवः येन राजन्हृता सीता तमन्वेषितुमर्हसि मद्वितीयोधनुष्पाणिः सहायैः परमर्षिभिः समुद्रम् वा विचेष्यामः पर्वतांश्च वनानि च गुहाश्च विविधा घोराः समाहिताः यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् न चेत् साम्ना प्रदास्यन्ति ते त्रिदशेश्वराः कोसलेन्द्र ततः पश्चात् प्राप्तकालम् करिष्यसि शीलेन साम्ना विनयेन सीता नयेन न प्राप्स्यसि चेन्नरेन्द्र ततः समुत्सादय त्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चषष्टितमः सर्गः